क्रोधम् त्यक्त्वा तु पुरुषः सम्यक् तेजोऽभिपद्यते कालयुक्तम् महाप्राज्ञे क्रुद्धैस्तेजस्सु दुःसहम् क्रोधस्त्वपण्डितैः शश्वत्तेज इत्यभिनिश्चितम् रजस्तु लोकनाशाय विहितं मानुषम् प्रति तस्माच्छश्वत् त्यजेत् क्रोधम् पुरुषः यदि सर्वमबुद्धीनामतिक्रान्तमचेतसाम् अतिक्रमो मद्विधस्य कथम् स्वित्स्यादनिन्दिते यदि न स्युर्मानुषेषु क्षमिणः पृथिवी समाः न क्रोधमूलो हि विग्रहः अभिषक्तो ह्यभिषजेदाहन्याद्गुरुणाहतः एवम् विनाशो भूतानामधर्मः प्रथितो भवेत् कृष्टः पुरुषः सर्वम् प्रत्याक्रोशेदनन्तरम् प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः हन्युर्हि पितरः पुत्रान् पुत्राश्चापि तथा पितृन् हन्युश्चपतयो भार्यास्पतीन् भार्यास्तम् सङ्कुपिते लोके शमः कृष्णेन विद्यते प्रजानाम् सन्धिमूलम् हि शमौ विद्धिषु भानने साक्षिपेरन्प्रजाः सर्वाक्षिप्रन्द्रौपदितादृशे तस्मान्मन्युर्विनाशाय प्रजानामभवाय च